अथ नवमः सर्गः एतच्छ्रुत्वा रहःसूतो राजानमिदमब्रवीत् श्रूयताम् तत्पुरा वृत्तम् पुराणे च मया श्रुतम् ऋत्विग्भिरुपदिष्टोऽयम् पुरावृत्तो मया श्रुतः सहत्कुमारो भगवान् पूर्वम् कथितवान् कथा ऋषीणाम् सन्निधौ राजम्स्तव पुत्रागमम् प्रति काश्यपस्य च पुत्रोऽस्ति विभाण्डक इति श्रुतः ऋष्यशृङ्ग इति ख्यातस्तस्य पुत्रो भविष्यति सवने नित्यसंवृद्धो मुनिर्वनचरः सदा नान्यम् जानाति विप्रेन्द्रो नित्यम् पित्रानुवर्तनात् द्वैविध्यम् ब्रह्मचर्यस्य भविष्यति महात्मनः लोकेषु प्रथितम् राजन्विप्रैश्च कथितम् सदा तस्यैवम् वर्तमानस्य कालः समभिवर्तत अग्निं शुश्रूषमाणस्य पितरम् च यशस्विनम् एतस्मिन्नेव काले तु रोमपादः प्रतापवान् अङ्गेषु प्रथितो राजा भविष्यति महाबलः तस्य व्यतिक्रमाद्राज्ञो भविष्यति सुदारुणा अनावृष्टिः सुघोरा वै सर्वलोकभयावहा अनावृष्ट्याम् तु वृत्तायाम् राजा दुःखसमन्वितः ब्राह्मणान् श्रुतसंवृद्धान् समानीय प्रवक्ष्यति भवन्तः श्रुतकर्माणो लोकचारित्रवेदिनः समादिशम् तु नियमम् प्रायश्चित्तम् यथा भवेत् इत्युक्तास्ते ततो राज्ञा सर्वे ब्राह्मणसत्तमाः वक्ष्यन्ति ते महीपालम् ब्राह्मणा वेदपारगाः विभाण्डकसुतम् राजन् सर्वोपायैरिहानय आनाय्यतुमहीपालऋष्यशृङ्गम् सुसत्कृतम् विभाण्डकसुतम् राजम् ब्राह्मणम् वेदपारगम् प्रयच्छकन्याम् शान्ताम् वैविधिना सुसमाहितः तेषाम् त्ववचनम् श्रुत्वा राजा चिन्ताम् प्रपत्स्यते केनोपायेन वैशक्यमिहा नेतुम् सवीर्यवान् ततो राजा विनिश्चित्य सह मन्त्रिभिरात्मवान् पुरोहितममात्यांश्च प्रेषयिष्यति सत्कृतान् ते तु राज्ञोऽपच श्रुत्वा व्यथिता विनताननाः न गच्छे मरुषेऽर्भीता अनुनेष्यन्ति तम् नृपम् वक्ष्यन्ति चिन्तयित्वा ते तस्योपायांश्च तान् क्षमान् आनेष्यामो वयम् विप्रन्न च दोषो भविष्यति एवमङ्गाधिपेनैव गणिकाभिरृषेः सुतः आनीतो वर्षयद्देवः शान्ता चास्मै प्रदीयते दृश्यशृङ्गस्तु जामाता पुत्राम् स्तव विधास्यति सनत्कुमारकथितमेतावद्याहृतम् मया अथ हृष्टो दशरथः सुमन्तम् प्रत्यभाषत यथहर्ष्यशृङ्गस्त्वानीतो येनोपायेन इशे श्रीमद्रमाणे वाकए आदि का्यलकांडे नव सर्ग